श्रीमद्भागवतमहापुराणं चतुर्दशस्कन्धः द्वादशोऽध्यायः मैत्रे वाच निशम्यवैकुण्ठनियोज्य मुख्ययोर्मधुच्युतं वाचमुरुक्रमप्रियः कृताभिषेककृतनित्यमङ्गलो मुनिन् प्राणम्यासितमभ्यवादयत् परित्याभ्यर्च्यधिष्ण्याग्रं पार्श्वदावभिवन्द्यत इये ये स तधिष्ठातुं बिभ्रद्रूपं हिरण्मयं तदोत्तानपदपुत्रो ददर्शान्तकमागतं मृत्योर्मुध्नेपदं दत्त्वा आरुरोहाद्भुतं गृहं तदा दन्दभयो ने गन्धर्वमुख्या प्रजगुः पेतो कुसुमवृष्टयः स च स्वर्लोकमारोक्षन् सुनीतिं जननीं ध्रुवः अन्वस्मरन् धृत्वा दीनां यासे त्रिवेष्ठवम् इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् तत्र तत्र प्रसंसद्भिः पथिवैमानिकैसुरैः अवकिर्यमाणो ददशे कुसुमै क्रमशो ग्रहान् त्रिलोकीं देवयानेन सोऽतिव्रज मुनीनपि परस्ताद्यदध्रुवगतिर्विष्णोपदमथाभ्यगान् यद्भ्राजमानं स्वरुचैव सर्वतो लोकाश्रयोशनुं दिभ्राजन्तयेते यन्नाव्रजञ्जन्तु सु येनग्रहा व्रजन्ति भद्राणि चरन्ति येनशम् शान्ताः समृद्र शुद्धाः सर्वभूतानुरञ्जनाः यान्तञ्जसाच्युतं पदम् अच्युतप्रियबान्धवाः उत्युत्तानपदपुत्रो ध्रुवकृष्णपराजनः अभुत्रयाणां लोकानां चूडामणिरिवामलः गम्भीरवेगो निमिषं ज्योतिषां चक्रमाहितं यस्मिन् भ्रमतिकौरभ्य मेढ्यामि युगवां गडः महिमानं विलोक्यास्य नारदो भगवान् ऋषिः आतोद्यं वितुदन् श्लोकान् सत्रे गायद्रतीतसां <laughs> नार नूनं सुनेते पतिदेवताया तपप्रभावस्य सुतस्य तां गतिं दृष्ट्वाभ्युपायानपि ते वेदवादिनो नैवाधिगन्तुं प्रभुवन्ति किं नृपा य पञ्चवर्षो गुरुदारवाक्षरैर्भिन्नेन जातो हृदियेन दूयतां वनं मदादे सकरोजितं प्रभुं जिगाय तद्भक्तगुणैः य छत्रबन्धुर्भिवितस्याधिरूढम् अन्वारिक्षेदपि वर्षपूगैः सत्पञ्चवरसो यदहोभिरल्पै प्रसादवैकुण्ठममापतत्पदं मेते उवाच एतत्ते भेतं सर्वं यस्पृष्टोऽहमिहस्त्वया ध्रुवस्योद्दामयञ्जसञ्चरितं सम्मतं सताम् धन्यं यशस्य मायुष्यं पुण्यं स्वस्यानं महत् सर्गं धौर्यं सोमनस्यं प्रसस्यम् अघुमर्षणं श्रुत्वैतश्रद्धयाभिक्ष्णम् अत्युतप्रियचेष्टितं भवेद्भक्तिर्भगवती यया स्यात् क्लेशसङ्ख्ययः महत्त्वं मिक्षतां तीर्थं श्रोतुशीलादयो गुणाः यत्र चेदस्तदिच्छूनां मानो यत्र मनश्विनां प्रयतकीर्तये प्रात् संवायेद्विजन्मनां सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् पौर्णिमास्यां शिनिवाल्यां दादस्यां श्रवणीथवां दिनक्षे पतिपाते सङ्क्रमेऽर्कदिनेऽपि वा राविसृद्धारानां तीर्थपादपदाश्रयः देशं तत्रात्मनात्मानं सन्तुष्ट इति सिद्ध्यते ज्ञानमज्ञातदत्वाय ज्योद्या सत्पथे अृतं कृपालोर्दीननाथस्य सेवा तस्यानुगृह्णते इदं मया ते विहितं कुरुद्वः ध्रुवस्य विख्यात विशुद्धकर्मणः यत्त्वार्भक्रीडनकालिमातर्गृहं च विष्णुं शरणं यो जगाम ते शैमद्भागुतै महाप्राणे प्रंशां चैतायां तत् स्कन्दे ध्रुवचरितं नाम द्वादशोऽध्यायः